अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः यथा च नो विषपीतो भविष्यति निश्चेष्टोऽस्माननुप्राप्तः स च संवृत्तः छित्त्वा बन्धनमाशुनः बोथयन्तं महाबाहुं त्वं वैतं ज्ञातुमर्हसि ततो वासुकिरभ्येत्य नागैरनुगतस्तदा पश्यति महाबाहुं भीमं भीमपराक्रमम् आर्यकेण च दृष्टः स प्रथाया आर्यकेण च तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितं सुप्रीतश्चाभवत्तस्य वासुके स अब्रवीतं च नागेन्द्रः किमस्य क्रियतां प्रियं धनौघोरत्न निचयो वसुचास्य प्रदीयताम् एवमुक्तस्तदानागो नागो प्रत्यभाषता यदि नागेन्द्रतुष्टोऽसि किमस्य धनसञ्चयैः रसं पिबे कुमारोऽयं त्वयि प्रीते महाबलः बलं यस्मिन् कुण्डे प्रतिष्ठितं यावत्पिबति बालोऽयं तावदस्मै प्रदीयतां एवमस्त्विति नागम् वासुकिः प्रत्यभाषता ततो भीमस्तदा नागैः कृतस्वस्त्ययनः प्रामुखश्चोपविष्टश्च रसं पिबति पाण्डवः एकोच्छ्वासा ततः कुण्डम् पिबति स्म महाबलः एवमष्टौ स कुण्डानि पाण्डुनन्दनः ततस्तु शयने दिव्ये नागदत्ते महाभुजः अशेत भीमसेनस्तु यथा सुखमरिन्दमः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीमसेन रसपाने